श्रीमद्भागवद्महापुराणं नवमस्कन्ध असद्वादशोऽध्यायः इक्ष्वाकुवंशकेशेषं कावर्णन् श्रीशोकुवाच कुशस्य चातीर्थिस्तस्मान्निषधस्तस्वतो नभ पुण्डरीकोच तत्पुत्रः क्षेमधन्वा भवत्ततः देवानीकस्ततोनेह पारियात्रोथतस्सुतः ततो बलस्थलस्तस्मान् भद्रनाभूर्खसम्भवः खगगणस्तत्सुतस्तस्मान् विधृतेश्चाभवन् सुतः ततो हिरण्यनाभोभूत्योगाचार्यस्तु जयमनेऽहं शिष्यकौसल्य आध्यात्मं योगं महोदयमृशिर्हृदे ग्रन्थिभेदकम् पुष्यो पुष्योभिरण्यनाभस्य ध्रुवसन्धिस्ततोऽभवत् सुदर्शनोऽथाग्निवर्णः शीघ्रस्तस्य मरुसुतः योऽसावास्ते योगसिद्धकलापग्राममाश्रितः कलेरन्ते सूर्यवंशं नष्टं भाविता पुनः तस्मात् प्रशुश्रुतस्तस्य सन्धिस्तस्याप्यमर्षणः महस्त्वात्तस्वितस्तस्माद्विश्वसाहोऽन्वजायत ततः प्रसेन जेत्तस्मात्तक्षको भविता पुनः ततो बृहद्बलो यस्तु पित्रा ते समरेहतः एते हि क्वा कुकु भूपाला अतीतां तृण्मनागतान् बृहद्बलस्य भविता पुत्रो नाम बृहद्रणः पुरुक्रियस्ततस्तस्य वस्तुवृद्धो भविष्यति प्रतिव्योमस्ततो भानुर्दिवाकों दिर्वाको वहिनीपतिवाहिनीपतिः सह सहदेवस्ततो वीरो बृहदस्वोऽथ भानुमान् प्रतीकासु भानुमतः सुप्रतीकोऽथ तस्सुतः भवितामरुदेवोऽथ सुनक्षत्रोऽथ पुस्करः तस्यान्तरिक्षतस्पुत्रः सुतपास्तदमित्रजे बृहद्राजस्तु तस्यापि बहिस्तस्मात् कृतञ्जयः रणञ्जयस्ततन्तस्य श्रुतः सञ्जयो भविता ततः तस्माच्छाख्योऽथशुद्धोऽदोल्लाङ्गुलस्तस्सुतस्मितः ततः प्रसेनजेत्तस्माच्छद्रको भविता रतः रणको भविता तस्मात् सुरतस्तनियस्ततः सुमित्रो नाम निष्ठान्त एते बाह्वद्बलान्वयाः इक्ष्वाकूर्णामयं वंश सुमित्रान्तो भविष्यति यतस्तम् प्राप्य राजानं प्राप्यति वैकलो। कलौ यशे श्रीमद्भागवते महापुराणे पारंसां चैतायां नमो दिक्षा कुवंशवर्णनं नाम द्वारसोऽध्यायः